नमो नमः नमो नमः भगिनी गीतासोपानं प्रथमभागः वर्गं प्रति सर्वेषां स्वागतम् आरम्भं कुर्मः प्रथमतः तु स्वागतम् राधा भगिनी भवती वदति वा गायति वा आम् आं भगिनि स्क्रीन स्क्रीन् दृश्यते खलु सर्वेषाम् आं भगिनि दृश्यते व्यास ते बुद्धे पुल्लारविन्दाय तपत्रनेत्र येन त्वया भारत तैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः सर्वोपनिषदो बाहो दोग्धा गोपालनन्दनः पार्थो वत्सत् सुतिर्भोक्ता दुग्धम् विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् गतपक्षे वयं पठितवन्तः अकारान्तपुल्लिङ्गिशब्द इकारान्तपुल्लिङ्गिशब्द अनन्तरम् उकारान्तपुल्लिङ्गिशब्द रुकारान्तपुल्लिङ्गिशब्द तथैव आकारान्त इकारान्त इकारान्त त्रिलिङ्गिशब्द उकारान्त अपि अनन्तरं न नपुंसकलिङ्गिशब्दः एकवारं तस्य वयं पुनरावर्तनं कुर्मः तत्र कना भगिनी सा उक्तवती खलु न वक्तुं शक्नोति इति अस्तु तस्याः नाम लक्ष्मी वक्तुं न शक्यते वक्तुं न शक्यते शृण्वन्ति चिन्ता नास्ति एकवारं तत् वयम् एकवारं पुनरावर्तनं तत्र पश्यन्तु तत्र पुरुषः इति शब्दः अस्ति चेत् अकारान्तपुल्लिङ्ग तस्य एकवचन द्विवचनं बहुवचनं भारतमहोदय भवान् वदति वा पुरुषः शब्दः अस्ति चेत् भगिनि हा वदतु कृपया रामः रामो, रामः तथैव पुरुषः अस्ति चेत् कथमस्ति शब्द, अकारान्तपुरु पुल्लिङ्गशब्दः पुरुषः एकवचन रामः द्विवचन रामौ बहुवचन रामः तथैव पुरुषः शब्दः अस्ति चेत् अकारान्तपुल्लिङ्गे एव तत् कथं भवति पुरुषः पुरुषौ पुरुष पुरुषः पुरुषौ पुरुषाः क्षत्रिय इति शब्दः अस्ति चेत् कथं भवति कविदिश न क्षत्रियः क्षत्रियः क्षत्रियः क्षत्रियः क्षत्रियो क्षत्रियाः अम्बिकापति महोदय हरि इति शब्दः अस्ति चेत् इकारान्तपुल्लिङ्गिशब्द इकारान्त हरिः हरिः हरौ हर्यः तत्र हरि हरि इति हरि हर्यः हरि इति इकारान्त अनन्तरं द्विवचने पश्यन्तु तत्र कथं भवति हरिः हरि अनन्तरं हरि इति भवति तत्र दीर्घत्वं भवति हरिः हरि हरयः इति भवति हरि हरि हरिह हरिः हरिं नाम हरि ओम् अस्ति हरिः हरयः एवम् यदा कविः अस्ति चेत् कथं भवति वदति वा कविः अस्ति चेत् अस्तु हा जयन्ति भगिनी यदा उकारान्त उकारान्तपुल्लिङ्गि गुरुः शब्दः अस्ति गुरुः इति प्रथमा तत् कथं भवति एकवचन द्विवचन गुरुः गुरू गुरवः सम्यक् गुरुः गुरू गुरवः पश्यन्तु यथा कविः कवी कवयः तथैव गुरुः गुरू गुरवः उकारः अस्ति इकारः अस्ति चेत् यः अस्तु अस्तु अनन्तरं पिता शब्दस्य रूपाणि तत्स्मरति वा जयन्ति भगिनी वदति वा पिता पिता आं पिता पितरौ पितरः हा तत्र सम्बन्धवाचिनः पिता पितरौ पितरः माता मातरौ मातरौ यदि यदि सम्बन्धः नास्ति कर्ता इति वदामः चेत् ऋकारान्तकर्ता शब्दः कथं भवति कर्ता भवति चेत् कर्ता कर्तारौ कर्ता कर्तारः कर्ता कर्तारौ कर्तारः परन्तु माता पिता कथं भवति पिता पितरौ अतः मातरौ पितरौ इति भवति हा सम्यक् अस्तु अनन्तरं राधा भगिनी गीता शब्दः चेत् कथं चलति गीता आकारान्त स्त्रीलिङ्गीता गीते गीताः सम्यक् इकारान्तस्त्रीलिङ्गे शब्दः मतिः इति मतिः इति अस्ति चेत् कथं चलति मतिः भवति दीर्घ अस्ति खलु मति ओके सो मति मतयः यथा हरिः वा कविः कथं प्रचलति तथैव भवति श्रीलिङ्गे तयः इदानीं नदीविषये वदतु ईकारान्तदीर्घ इकारान्तसिल्लिङ्गि नदी कथं भवति नदी नद्यौ नद्यः uh, uh, नदी uh, नद्यौ नद्यः uh. एव अधुना तत्र नपुंसकलिङ्गि नपुंसकलिङ्गिशब्दस्य कृते तत्र वयं दृष्टवन्तः यथा तत्र पुष्पं पुष्पम् पुष्पम अपि अस्ति चेत् कथं प्रचलति राज पुष्पं पुष्पं पुष्पे पुष्पाणि पुष्पं पुष्पे पुष्पाणि इकारान्तनपुषकलिङ्गि तत्र दधि शब्द इकारान्त दधिनी दधीनि दधि दधिनी दधीनि तथैव उकारान्त नपुषकलिङ्गि वस्तु कथं <catham> चलति वस्तु द्विवचने कथं भवति वस्तु इति तथैव अनन्तरं बहुवचने वस्तूनि Uh, अधुना वयम् अग्रे हा परन्तु तस्मात् भगिनी इकारान् पुलिङ्ग् शब्द कविः मुनिः सेम् वे इकारान् स्त्रीलिङ्गशब्द मतिः तिथिः हौ यू यू हेव् टु रिमेम्बर् देट् दिस् इस् अ इकारान्त् स्त्रीलिङ्ग् एण्ड् दिस् इस् पुलिङ्ग् बट् इस् दे एनी स्पेसिफिक् वे वाय्स् बोत् आर् सेट् वेरि मच् सेम् वे बट् वाय्स् स्त्रीलिङ्ग् एण्ड् पुलिङ्ग् हा कथं वयं जानीमः श्रीलिङ्गी अस्ति वा पुल्लिङ्गी अस्ति एवम् इति प्रश्नः खलु अत्र प्रथमतः तु पश्यन्तु तत्र मतिः बुद्धिः अनन्तरं मतिः बुद्धिः अनन्तरं केचन शब्दाः तत्र श्रु श्रुति धृति एते सर्वे शब्दाः स्त्रीलिङ्गे शब्दाः सन्ति परन्तु कविः रविः रविः इत्युक्ते सूर्य कविः रविः हरि मुनिः एते सर्वे पुल्लिङ्गे शब्दाः तत् अभ्यासेन एव शनैः शनैः वयं ज्ञातुं शक्नुमः परंतु त्री इदानम स्मरा तरह बुद्धि मति शुति स्मृति स्मृति स्मृति त्रे एक शब्द स्त्रीलिंग प्रचल हाँ तैदि कि अमरा वैदिक संप्रदाय इति वक्तुं शक्नुमः तत्र धर्म इति मास्तु वैदिक या परम्परा तत्र अस्ति प्रचलिता प्रचलिता आसीत् इदानीमपि अस्ति सा परम्परा तत्र देवतारूपेण स्त्रीरूपेण एते सर्वे शब्दाः प्रचलन्ति मतिः बुद्धिः कृतिः श्रुतिः एवं सर्वम् इति अस्ति परन्तु okay. वरुणदे वरुणः अग्निः वायुः सोमः मरुत् एते सर्वे देवाः एव परन्तु hmm. तत्र पुंसत्वत् दृश्यते पुरुष पुरुषवाचिनः शब्दाः इति एवमस्ति okay. तत् अभ्यासेन वयं ज्ञातुं शक्नुमः okay. yeah. अदा वयम् अग्रे पुस्तकपठनस्य प्राक् गीतायाः श्लोकान् किञ्चित् तत्र एकवारं पुदा, एकवारम् अहं स्क्रीन् शेर् करोमि तत्र अस्माकम् अद्य पठनबिन्दुः यत् अस्ति तत्प्रथमता श्लोकरूपेण तं प्रति गच्छामः अत्र श्लोकः अस्ति उत्तमः श्लोकः अत्रमहोदय भवानेव पठति वा भारतमहोदय भवान् अत्र अत्र पठति अनन्यचेताः सततम् यो मा स्मरति नित्यशः तस्याहम् सुलभः पार्थ नित्ययुक्तस्तस्य योगिनः सम्यक् अनन्यचेताः सततम् यो माम् स्मरति नित्यशः तस्याहम् सुलभः पार्थ नित्ययुक्तस्य योगिनः इति भगवान् वदति तत्र अष्टमे अध्याये अष्टमे अध्याये एषः श्लोकः अस्ति तत्र सन्धिविग्रह कृत्वा अस्माकम् अद्यदिनस्य पठनबिन्दुः यः अस्ति तत् पुनः एकवारं पठति वा भारतमहोदय अनन्यचेताः पठति वा अनन्यचेताः सततं व्योमा स्मरति नित्यसः तस्या हुँ, अहं सुलभः पार्थ नित्ययुक्तस्य योगिनः तस्याहम् इत्युक्ते तस्या अहं सुलभः पार्थ नित्ययुक्तस्य योगिनः अत्र भगवान् वदति अनन्यचेताः अनन्यचेताः हा अनन्य अनन्य इत्युक्ते किम् अनन्य न अन्य न अन्य अनन्य न सत्य असत्यं न योग्य अयोग्यम् तथैव न अन्य अनन्य अनन्यचेताः न अन्य न अन्यत्र न अन्यस्मिन् विषये चेतः चेतः इत्युक्ते तत्र मन अनन्यमनस्कः इत्युक्ते अन्यस्मिन् विषये तस्य चित्तः तस्य विचारः वा तस्य मनः अन्यविषयान् प्रति न गच्छति सततं सततमित्युक्ते सर्वदा अल्वेज् इति यो यः माम् माम् इत्युक्ते कः वदति भगवान् गोपालकृष्णः वदति माम् इत्युक्ते ईश्वरम् एव स्मरति नित्यशः नित्यशः प्रतिदिनं प्रतिदिनमित्युक्ते नित्य तत्र नित्यभाव इत्युक्ते किम् अद्य अहं करोमि श्वः पुनः न करोमि परश्वः किञ्चित् किञ्चित् करोमि अनन्तरम् विस्मरामि एवं नित्यशः प्रतिदिनं यः अनन्यचेताः प्रतिदिनं प्रतिदिनं सर्वदा मां स्मरति माम् इति अस्ति माम् इत्युक्ते विभक्ति का कोऽपि स्मरति वा माम् इत्युक्ते आं द्वितीय एकवचनं द्वितीया द्वितीया एकवचनं माम् इत्युक्ते भगवन्तं मां यः स्मरति स्मरति इत्युक्ते ध्यायति ध्यानं करोति तस्य विषये मन मनसि तस्य एव चिन्तनं करोति हा स्मरति ध्यायति तस्या अहं तस्य अहं हा तस्य अहं सुलभः तत्र तस्या न भवेत् तस्य भवेत् ता। टैपो तस्य अहं सुलभः पार्थ पार्थ इति सम्बोधनं सम्बोधनम् आह्वयामि चेत् तत्र सम्बोधनस्य उपयोगः पार्थ इत्युक्ते कः अर्जुनः अर्जुनः अर्जुनः पार्थ इत्युक्ते अर्जुनः पृथायाः पुत्र पृथा इत्युक्ते पृथायाः पुत्र तत्र पार्थ हे पार्थ तस्य अहं सुलभः तस्य नित्ययुक्तस्य योगिनः तत्र अपि नित्यशब्दः नित्य इति अतीवमहत्त्वपूर्णशब्दः नित्यशः नित्ययुक्तस्य नित्ययुक्तस्य नित्य नित्य आराधनां करोति नित्यचिन्तनं करोति तत् योगिनः योगाभ्यासे यः नित्ययुक्तः तस्य नित्ययुक्तस्य योगिनः अहं सुलभः अहं सुलभः अस्ति अहं दुर्लभः नास्ति इत्युक्ते तत्र सः वदति तस्य नित्ययुक्तस्य योगिनः अहं सुलभ सुखे लब्ध भवाम अहम प्रनोमी ईश्वरप्राते त्र साधना कथम करनीय अन्यचेता अनचेता सिंगल मैंडी सिंगल फोकज मैंड वन पॉइंटेड मैंडम शक्ल फोकस् मैंड तेन माम एव मित्यश स्मरती निश कौन योगिन अहं सुलभः अहं न दुर्लभः अत्र शब्दस्य अस्माकं पठनबिन्दुः अद्य दिनस्य अहम् अहम् अहम् इत्युक्ते विभक्ति का अहं शब्दस्य प्रथमाविभक्ति एकवचनम् प्रथमाविभक्ति एकवचनम् अहं यदा तत्र एकः पुरुषः अस्ति सदा सः वदति अहं पुरुषः तत्र पुरुषौ स्तः कथं भवति अहं कोऽपि जानाति वा अहम् आवां वयम् अहम् आवां वयं सत्यम् अहम् अहम् अस्मि आवाम् इत्युक्ते तत्र द्वौ पुरुषौ तत्र ते कथं वदन्ति द्वौ पुरुषौ तौ कथं वदन् वदतः आवां बहवः जनाः वयम् अहम् आवां वयम् तस्य अहम् अहम् इत्युक्ते तत्र भगवान् स्वस्य विषये वदति अतः तत्र अहं शब्दस्य योजना अहम् आवाम् वयम् इति एकः अद्यदिनस्य पठनमिन्तु द्वितीयः अत्र अस्ति द्वितीयः श्लोकः तत्र किमस्ति पश्यामः अम्बिकापतिमहोदय भवान् पठति श्लोकं पठतु कृपया भवान् भीष्मस् भीष्मश्च कर्णश्च कृपश्च समीपिं समीपिञ्जयः समीपिञ्जयः अश्व अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च इति प्रथमे अध्याये एषः श्लोकः भवान् भीष्मश्च कर्णश्च कृपश्च समिति जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च अष्टमः श्लोकः इदानीं भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च इति पठन्तु तत्र प्रथमे अध्याये प्रथमे अध्याये तत्र हा वदतु नाम हा नामानि सन्ति सम्यक् नामानि सन्ति के के योद्धाराः तत्र सम्मिलिताः के के युजुत्सवः तत्र सम्मिलिताः युद्धस्य कृते के जनाः सम्मिलिताः अत्र एषः श्लोकः तत्र भवान् इति कः एतत् सर्वम् च इति द्वितीयः श्लोकः तत्तु सत्यं सञ्जयवाच परन्तु सञ्जयः तत्र पश्यन्तु नारेशन् इस् गोयिङ्ग् ओन् इन् फ्रण्ट् आफ् धृतराष्ट्रः बाय् सञ्जयः अत्र कः कं वदति सञ्जयः तु तत्र संवादरूपेण वदति तत्र सर्वेषु स्थलेषु तत्र सञ्जयः धूतराष्टु मध्ये एव संवादः तत्तु सत्यम् परन्तु भवान् इति कः कं वदति दुर्योधनः दुर्योधन उत्तमं दुर्योधनः आचार्यद्रोणाचार्यं वदति Hmm. आचार्यम् उपसंगम्य राजा वचनम् अब्रवीत् इति oh, एकः अस्ति खलु oh, oh. तत्र oh, भवान् इति oh. oh. oh. oh. कस्य कस्य कं वदति द्रोणाचार्यम् oh. आचार्यम् oh. oh. दृष्ट्वा वदति oh. हा एते सर्वे अस्माकं समीपे oh. सर्वे वीराः सूराः सन्ति लिस्ट, लडम् oh. भवान् अस्ति भीष्मः अस्ति भीष्मपितामहः कर्णः च विसर्गस्य चकारः कर्णः अस्ति कृपः अस्ति समितिञ्जयः समितिञ्जयः पश्यन्तु तत्र समितिञ्जयः इत्युक्ते तत्र समितिः इत्युक्ते युद्धं नित्यं विजयी भवति युद्धे युद्ध युद्धे युद्धप्रसङ्गे तत्र नित्यजयप्राप्तिः भवति सः समितिञ्जयः समीपे जयः अश्वत्थामा अश्वत्थामा कस्य पुत्रः द्रोणा सम्पूर्णं वाक्यं वदतु अश्वत्थामा वदतु पुत्रः द्रोणाचार्यस्य पुत्रः पुल्लिङ्गी अस्ति खलु द्रोणाचार्य द्रोणाचार्य पुत्रः विकर्णः कः विकर्णः जानाति वा परन्तु तस्य विशेषता का मातः अन्य का भवति सम्यक् तत्तु अस्ति परन्तु विकर्णः सर्वेषु कौरवेषु सः भिन्नः अस्ति आम् द्रौपदीवस्त्रणप्रसङ्गे विकर्णः एव तत्र स्वस्य मनसि ये विचाराः सन्ति तत् सम्यक् प्रकारेण सः उक्तवान् सः प्रतिरोधं दर्शितवान् दर्म, दर्म, तत्र द्रौपदीवस्य समीपं तिष्ठवान् सत्यं सत्यं सर्वे अधर्मीणजनाः परन्तु तत्र विगर्णः तत्र तत्म तक प्रसंगे सह उतवानेग्यम यचल तरह अवहेलना तचलिता आसी तत् नोग्यम विकर्ण उतवा तौरव कौरव कौरवेश सह आसी अतः सह तं पक्षे स आसी तथा सह युद्ध अनतर भीम तस्य वधं कृतवान् अनन्तरं भीमस्य मनसि अपि वधानन्तरं खेदः आगतः तत्र वधानन्तरं विकर्णस्य वैकर्णः इति धर्मपालनं सः कृतवान् विकर्णः इति अस्ति हा सौमदत्ति तथैव च सौमदत्ति हा अत्र ए किञ्चित् अहं वदामि तत्र इदानीं तस्य सकुलतया अध्ययनं मास्तु अनन्तरं वयं पठामः तत्र सौमदत्ती तत्र तद्धितप्रत्ययस्य योजना अस्ति सोमदत्त सोमदत्तस्य पुत्रः सौमदत्ती कुन्तीपुत्रः कौन्तेय पृथा पुत्र पृथायाः पुत्र पार्थ <laughs> तत्र तद्धितप्रत्ययः पश्यन्तु तत्र कर्णस्य अपि तत्र राधेय इति नाम अस्ति राधायाः सः पुत्र राधा, राधा एव तस्य लालनपालनं कृतवती राधेय तद्दित प्रत्योजना सोमदत्मदत्ती अदत्ती प्रत्ययजन शब्द निष्प्य है परंतु तरह सौमदत्ती तम अस्त भूरीश्रवा भूरीश्रवाई तर कूरीश्रव तूरीश्रव भूरीश्रवाई अस्त शन्तनु शन्तनु इति मूलपुरुषः तत्र शन्तनुः सर्वे जानन्ति तत्र शन्तनोः बन्धुः अस्ति बाल्यक् इति बाल्यिक् इति शन्तनोः बन्धुः बाल्यिकस्य पुत्रः सोमदत्तः सोमदत्तस्य पुत्रः सौमदत्ति अथवा भूयिश्रवा शन्तनोः बन्धुः बाल्यिकः बाल्यकस्य पुत्रः सोमदत्तः सोमदत्तस्य पुत्रः सौमदत्ते तद्वित् प्रत्ययस्य योजनया द्वितीयं द्वितीयं नाम अस्ति भूरिश्रवः इति इदानीं वदतु भूरिश्रवाः बाल्यिक द्वयोः मध्ये कः सम्बन्ध प्रतिवदतु एकवारं पुनः वदतु बेनि हा शन्तनोः बन्धुः अस्ति बाल्यिक न न भवती इदानीम् एकप्रश्नं पृष्टवती खलु तत् वदति वदा बाल्यकः बालिकः बालिकस्य पुत्रः सोमदत्तः सोमदत्तस्य पुत्रः सोमदत्ति अथवा गुरीश्रवा सोमदत्ति तत्र तत्र बालिक् भूरिश्रवादयोः मध्ये कः सम्बन्धः पितामहः भवति कः कस्य पितामहः पूरीश्रवसः बाग्लिकस्य पौत्रः बाल्लिक पूरीस्रवस्य पितामहः बाह्लिकः बालिकः बाल्यिकः बाल्यिका इति पितामहः अस् अस् सम्यक् सम्यक् पठनं बिन्दुः कः भवान् इति विषयः अस्माकं भवान. Uh, आंग्ल भाषायां तर भाई तू एस्लफ परंतु तेन सम्य भाव से अव अवगमनम नव भाई हिंदी भाषायां आदति खलु आपेक्ट शोयिंग रिस्पेक्ट तौंत भात्र भात्र ौ भवन्तः छात्राः तथैव भवति छात्रा भवत्यौ छात्रे मालामाले भवत्यः छात्राः स्त्रीलिङ्गे पुल्लिङ्गे अस्ति चेत् भवान् भवन्तौ भवन्तः स्त्रीलिङ्गे अस्ति चेत् भवति भवत्यौ भवन् भवन्ति भोद्धाधारौ योद्धार मतीौ मती मत श्रीलिंगे पुिंगे भौंत भवत्यौ भवत्यः एवमस्ति इतोपि तत्र अस्ति त्वं त्वम् इत्युक्ते किम् त्वम् त्वम् इति मध्यमपुरुषी त्वम् असि त्वमेव केवलं कर्तासीत् त्वम् अस्ति एकवचनं त्वम् तत्र कथं प्रचलति त्वं युवां युय त्वं युवां युयं किञ्चित् अद्य दिने एव द्विवारं त्रिवारं सर्वे वदन्तु अहम् आवां वयं त्वं युवां यूयम् अहम् आवां वयं त्वं युवां यूयं हा तत्र मनसि भवेत् अहम् आवां वयं त्वं युवां यूय अधुना पुस्तकं प्रति गच्छामः पुनः एकवारं तत्र पठनं वयं कुर्मः किमस्ति अत्र अस्ति दृश्यते सम्यक् दृश्यते दृश्यते पश्यन्तु पञ्चमः पाठः इदानीम् अस्माकं पञ्चमः पाठः कः भवान् कः भवान् पठनबिन्दवः अहं त्वं भवान् भवति अत्र पश्यन्तु अहम् अहं, अहं, अहं शब्द कस्मिन् लिङ्गे अस्मि वदतु अहम् शब्द कस्मिन् लिङ्गे पुल्लिङ्गेषु त्रिलिङ्गकः तत् त्रिलिङ्गकः इति उच्यते खलु भगिनी त्रिलिङ्गकं मा न एव तथैव आवामपि त्रिषु लिङ्गेषु समानः वयमपि त्रिषु लिङ्गेषु समानः तथैव त्वं त्वं कुम्भकार इति तत्र लिखितमस्ति परन्तु त्वं महिला युवां महिले पुरुषः, यूय महिला तत्व शक्ष युवा पुषौ यूय पुषा एकिंगु सब भविंग विषय भा श कस्िंगेलिंगे हाँ भब्द पुिंगे भा शब्द अस्तु राधा भगिनी भवती पठति वा अहं पाण्डवः आवां पाण्डवौ वयं पाण्डवाः त्वं कुम्भकारः ोपिके योधा, गोपिका तत्र पञ्चपर्यन्तं करोतु भगिनी अनन्तरम् अन्यकोपि भवान् सारथिः भवान् सारथि भवन्तौ सारथि सारथी भवन्तः सारथयः हा अत्र यदा कदा वयं पठामः तत्र सारथिः ईकारान्तशब्द पुल्लिङ्गी अस्ति झटिति अस्माकं मनसि भवेत् अस्तु हरिः वा कविः वा चलति हरिः कविः मुनिः तावदेव कथं चलति हरिः हरि हरयः तथैव सारथीः सारथी सारथयः अधुना करोतु अग्रिमे भवान् शिष्यः भवन्तौ शिष्यौ भवन्तः शिष्यः शिष्यः भवन्तः शिष्याः शिष्यः वृक्षः वृक्षः रामः रामः रामौ रामः शिष्याः तत्र साधर्म्य किं करणीयमस्माकम् अस्माभिः किं करणीयम् तत्र साधर्म्य साधर्म्यसूचक अस्तु शिष्यशब्दशिष्यौ दृश्यते रामौ एव दृश्यते रामौ शब्द द्विवचनान्तं तत्र एकवचनान्तं कथं भवति हा रामः इति भवति तथैव शिष्यः इति भवेत् रामाः इति बहुवचनान्तं भवति तथैव शिष्याः इति भवेत् आम् अस्तु भवान् दाता भवन्तौ दातारौ भवन्तः दातारः नुँ, नुँ, भवती गायिका भवत्यौ गायिके भवन्तः गायिकाः अग्रिमे भवती सखी भवत्यौ सख्यौ भवन्तः uh, सख्यः भवत्यः भवत्यः सोरि भवत्यः भवत्यः उत्तम धन्यवादः भगिनि धन्यवादः धन्यवाद अग्रिमे जयन्ती भगिनी करोति वा अहं भगिनी करोमि मातरः भवत्या भवती माता भवत्यौ मातर मातरौ भवत्यः मातरः अहम् अहं सैनिकः आवाम् आवां सैनिकौ वयं सैनिकाः अहम् आचार्यः आवाम् आचार्यौ यम् आचार आचार्यः आचार्याः अधिवक्ता अहम् एव अत्रापि प्रयोक्तुं शक्यते खलु भीनिव अहम् अधिवक्ता आवाम् अधिवक्तारौ वयम् अधिवक्तारः इति नास्ति खलु त्वं कौन्तेयः युवां युवां कौ त्वं कौन्तेयः युवां कौन्तेय कौन्ता युवां कौन् कौन् कौन्तायौ कौन्तेयौ युवा कौन्तेयौ युनम् कौन्तेय कौन्तेयाः कथं भवति तत्र परिवर्तनं कुत्र जायते अन्तिमस्थले अन्तिम अकारान्तवर्णस्थले एव परिवर्तनम् सर्वे पाण्डवाः सर्वे पाण्डवाः तु कौन्तेयाः एवं खलु वास्तविकरूपेण तत्र कर्णः अपि कौन्तेयः एव आसीत् अतः त्वं कौन्तेयः एकः तत्र युवां कौन्तेयौ कौन्तेय अस्तु अग्रिमे Mm -hmm. uh, the, uh, uh, ज, uh, um, त्वं ah, uh, त्वं प्रयुज्य प्रयोजनं कर् प्रयुक्तं खलु बेनि त्वम् त्वं वा अहं वा द्वयोः अपि तत्र योग्यं गुरु hmm? युवां गु, uh, गुरू uh, वयं गुरवः ah, उकारान्तपुल्लिङ्गि वायुः वायु वायवः गुरुः गुरू गुरवः सम्यक् अग्रिमे यकः hmm? यूयं नायकौ वयं नायकाः त्वं त्वम् अनन्तरं किमुक्तवती नायकः नायकः त्वं नायकः यूयं सारी युवां नायकौ यूयं नायकाः अहं भक्ता सारि अहं भक्तः अहं भक्तः आवां भक्तारौ वयं भक्ता भक्तः इति अकारान्तपुल्लिङ्गी एव अस्ति भक्तः भक्तौ आम् भक्तौ अहं भक्तः आवां भक्तौ वयं भक्ताः अग्रिमे आवां शिष्यौ अहम् शिष्यः आवां शिष्यौ वयं शिष्याः त्वं बुधः बुधः युवां बुधौ यूयं बुधाः इत्युक्ते नालेजेबल् इति क्लवर् इति वक्तुं शक्यते खलु क्लवर् यूयं सेनापतयः यूयं सारि त्वं सेनापति त्वं सेनापति युवां सेना सेनापति सेनापति uh um senapatayah uh, it's a very good mental exercise please do it um very quick uh, uh, <laughs> uh <laughs> to uh, uh, uh, match uh, the column uh, aham avamayam uh, tvam yuvam uh, um, yayam yu avan bhavanto uh, bhavantah bhavati bhavatyo bhavatyah anvansei On uh, and then we have different forms of vrikshaha vriksho vrikshaha mati uh, mata mati mati himati matayah हरिः हरि हरयः गुरुः गुरुः एवं माता मातरौ मातारः पितापितरौ पितरः एवं सर्वुनिट् टु हेव् लोड् आफ़् प्राक्टिस् गृहाभ्यासरूपेण तत्र किञ्चित् अभ्यासं सर्वे कुर्वन्तु तेन मनसि दृढीकरणमपि भवति वि केन् एन् बेटर् ओके धन्यवादः भारतमहोदय अग्रिम्या करोति वा आम् फ्रम् द बिगिनिङ्ग्दाहरणं रिक्तस्थाहरणं रिक्तस्थानानि पूरयत भवान् सिद्धः भवन्तौ सिद्धाः भवन्तौ भवन्तौ सिद्धौ भवन्तः सिद्धाः सम्यक् अग्रिमे भवान् नरः भवान् नरः भवन्तो नरो सम्यक् भवन्तः नराः भवान् um, साधु उत्तमं भवान् साधु साधु भवन्तो साधु साधु सत्यं भवन्तः साधवः अग्रिमे भवान् श्रोता हुँ? भवन्तौ श्रोतारौ भवन्तः श्रोतारः ज्ञाता भवन्तो ज्ञातारौ भवन्तः ज्ञातारः भवन्तौ दाता दातारौ भवान् so, दाता भवन्तौ दातारौ भवन्तः दातारः भवान् दास दासरथिः दाशरथिः इत्युक्ते कः महोदय दासुरथि दशरथस्य पुत्रः दशरथस्य पुत्रः oh, okay. दशरथपुत्र hmm? शान्तारा दशरथस्य पुत्रः रामः प्रभुरामः right. दशरथः तस्य तद्दि प्रत्ययस्य योजनेन दा इति भवति द तत्र दा भवति दाशरथिः दाशरथी रामः वासुदेवः कृष्णः वासुदेवस्य पुत्र वासुदेवः कृष्णभगवान् रामस् रामस्य, रामस्य द्वितीयः नाम द्वितीयं नाम द्वितीयं नाम दाशरथिः इति दाशरथिवान् <laughs> दाशरथिः अत्र एकं विषयान्तरम् इति न भवन्तः सर्वे जानन्ति वा दशरथशब्दस्य अर्थः कः दशरथ दशरथानां स्वामी तत्र दशरथानां स्वामी इत्युक्ते तत्र फिसिकलि तत्र दशरथाः सन् आसन् तत्र मनस् विषये मनसि तत्र ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि यानि इन्द्रियाणि सन्ति इन्द्रियाणि इन्द्रियाणि तत्र सम्यक् तस्य अवरोधनं यः कर्तुं शक्नुवान् वा यः कर्तुं शक्नोति सः दशरथः इति अस्ति अस्तु हा भवान् दाशरथिः भवान अग्रिमे भवान् दासरथिः भवन्तो भवन्तो दासरथी सम्यक् भवन्तः दास दासरथी रथय रथयः रथय उत्तमम् अग्रिमे भवन्तो अतिथिसौ भवान् अतिथ अति अतिथि अतिथि अतिथि अतिथिः भवान् अतिथिः भवन्तो भवन्तो अति अतिथि भवन् भवन्तः अति अतिथ्यो अतिथय अतिथय तिथयः कवि कवी कवयः हरि हरि हरयः अतिथि अतिथि अतिथयन्तः गुरुवः सो पवान् गुरु गुरुः पवन्तो गुरु भवन्तः पटु इस् एक्स्पर्ट् एक्स्पर्ट् पटु उकारान्त रस्व उकारान्त भानु भानु इव चलति रस्व उकार इत्युक्ते तत्र गुरु भानु तथैव चलति पटु एव भवन् पटु पटुः पटुः भवान् पटुः भवन्तो पटु भवन्तः अस्तु पर्याप्त धन्यवादः महोदय तत्र दाशरथी दशरथस्य विषये अत्र उक्तवती इतोपि तत्र, तत्र दश इन्द्रियाणां स्वामी परन्तु तत्र कथमस्ति ज्ञानेन्द्रिये ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि ना, अत्र एकः विचारः उत्तमः विचारः अस्ति तत्र तत्र पश्यतु दशरथ इति नूपः तत्र कौसल्या सुमित्रा कैकयी तत्र कौसल्या इति दिव्यमेधा सुमित्रा इति शुद्धमेधा कैकै अविद्या मन्थरा मन्थराः मन्थरा मन्थरायाः मन्थरा कार्यं सर्वे जानन्ति खलु मन्थरायाः कार्यं जानन्ति खलु सर्वे मन्थरा इति कुविद्या सा कुविद्यारूपेण तत्र आसीत् परन्तु मूलतः कैकय्याः मनसि अविद्या सुमित्रा राज्ञी शुद्धमेधा कौसल्याराज्ञी दिव्यमेधा एवमस्ति परन्तु तत्र अस्माकं मनसि सर्वे भावाः सन्ति कदा कदा मनसि अविद्यायाः विचारः अपि आगच्छति कुविद्यायाः विचारः अपि आगच्छति शुद्धमेधा तत् अस्ति एषः भावः अपि अस्माकम् मनसि अस्ति एव परन्तु यदा सदा सर्वदा तत्र रामविषयकः चिन्तनम् यदा भवति चेत् एतेषाम् सर्वेषाम् सम्यक् नियोजनम् अस्माकं मनसि भवति एव इति एकः विचारः उक्त अस्तु विषयान्तरम् इति न परन्तु तत्र उत विचारः उत्तमः अस्ति अतः अहम् उक्तवती अस्मि अग्रे शरेमः अम्बिकापतिमहोदय भवान् करोति वा एकादशतः भवती महिलातः करोति वा एकादश भवती भवती महिला भवत्यौ महिला <laughs> महिले भवत्याः महिलाः महिलाः इति शिक्षिके शिक्षिका भवती शिक्षिका भवत्यौ शिक्षिके भवत्याः शिक्षिकाः अस्ति वा सम्यक् सम्यक् भवत्याः शिक्षिकाः सम्यक् भवत्यः नायिका भवतः भवती नायिका नायिका भवत्यः नायिकाः सम्यक् भवती भगिनी भगिन्य भगिनी भगिन्य भगिन्यौन्यौ नौ नदी नद्यः भवती भगिनी भवत्यौ नगिन्यौ भवत्यः भगिन्यः भवती माता भवती माता भवत्यौ मातरौ भवत्याः मातर भवत्यै वध्वौ वद्वौ वधुः भव भवती वधुः भवत्यौ भवद्वौ भवत्याः वध्वाः इति त्वं भवतः युवां भवतौ यूयं भवता युवाम् अर्चकौ त्वम् अर्चकः युवां भक्तौ यूयं भक्ताः एवमस्ति अग्रिमे युवाम् अर्चकः यूयम् त्वं त्वम् अर्चकः युवाम् अर्चकौ यूयम् अर्चकाः त्वं कविः युवां कवयः युवां कवि कवी कवि त्वं युवां यूयं कवयः अग्रिमे यूयं स्थितप्रज्ञा स्थितप्रज्ञाः त्वं स्थितप्रज्ञः यूयं स्थितप्रज्ञौ यूयं स्थितप्रज्ञाः युवां स्थितप्रज्ञौ यूयं स्थितप्रज्ञाः अग्रिमे स्थितानि तानि स्थितानि तत् स्थितानि न तत्र नपुसकलिङ्गे अस्ति तत् सम्यक् वा अस्थि अस्थि अस्थिनी अस्थीनि तत् ते तानि तत् मेजिक् वित् अस्थि ते अस्थिनी तानि एव अनन्तरं पठामः विभूतिः साते ताः विभृतिः विभृतिः विभूतिः विभूतिः अस्तु सत्यं ताः ता ताः विभु विभूति मती, मती मतयः किं भवति विभूति विभूति बहुवचने अग्रिमे प्रमातिनी प्रमातिनि एतत् प्रमातः प्रमाथिनि एतत् प्रमाथिनि एते प्रमाथिनि किमस्ति प्रमा तत् प्रमाथिनी इति श्रीलिङ्गी अस्ति नदीवत् चलति तत् एते अस्ति एषा प्रमाथिनी एषा प्रमाथिनी तत्र नदीवतीति न मति एवत् चलति एषा प्रमाथिनी ह्रस्व एते प्रमाथिनी मति मती मतयः एताः प्रमाथिनयः प्रमाथिनयः मतिः मती मतयः तथैव एषा एते एताः श्रीलिङ्गमा प्रमाता प्रमाथिनि प्रमा तत्र यत् कोऽपि परिवर्तनं भवति तत् महोदय अन्तिमस्थले एव भवति तत् प्रमाथि इति शब्दः तस्मिन् कोऽपि परिवर्तनं नास्ति प्रथमः वर्णः द्वितीयः वर्णः तृतीयवर्णः न परिवर्तन प्रमाथि एव परन्तु प्रमाथिनिः प्रमाथिनी प्रमाथिनयः एव अतः अहम् उक्तवती तत् मेण्टल् एक्ससैज् इति अस्ति खलु प्रमाथि प्रमाथिनि प्रमाथिनी प्रमाथिनयः अग्रिमे एषा श्रुति पुनः श्रुति एव श्रुति कथं भवति एषा श्रुतिः स्तुति श्रुतिः एषा एते एताः एताः किं भवति स्तुत्याः श्रुतयः तथैव आगच्छति मतिः तत्र स्रु स्रु तथैव आगच्छति मतिः कथं भवति मतिः मति मतयः श्रुतिः श्रुति श्रुतयः अन्तिमं कः महर्षि का, के, के उत्तमम् हरि हरि हरयः एवमस्ति अस्तु इदानीं यत् अस्ति त्वम् अग्रिमे वर्गे कुरु करिष्यामः समयः अस्ति तथा पठनं कुर्मः धन्यवादः अम्बिकापट्टिमहोदय अस्तु राधा भगिनी आरम्भं करोति वा ीयः कदाचित कस्यचित् महात्मनः प्रवचनकार्य कार्यक्रम प्रवर्तमानः आसीत् कार्यक्रमे बहवः भागं वहन्ति स्म अहंकार अहङ्कारद्वेषलोभमोहादिन व्यक् त्यक्त्वा सात्विकम् जीवनं यापनीयम् इति सः जनान् उपदिशति स्म hmm. तस्य उपदेशवचनेषु बहवः hmm. महती श्रद्धां प्रदर्शयन्ति स्म तत्र श्रद्धां महती इति विशेषेण विशेषं श्रद्धांशयति स्म अग्रिमे अपि पठतु तत्पश्चात् वदतु किञ्चित् आं वद अथ कदाचित् कश्चन श्रोता महात्मानम् अपसर्य अपसर्प्य उपसर्प्य उपसर्प्य उपसर्प्य अपृच्छत् महोदय भवतः प्रवचनं तु प्रतिदिनं श्रद्धया श्रुणोमि अहम् किन्तु ततः मयि कापि प्रगति प्रगतिः तु न जाता किमर्तम एवम् इति अधुना स्वशब्दै वदति वा uh, एक महात्मानमासीत् ते प्रवचनं कृतवान् hmm. कार्यक्रम तस्य विषये अहंकार, अहङ्कार लोभ, मोह तद्विषयी आसीत् जनाः सर्वे तस्य उपदेशं श्रुतवन्तः तत्र सः उपदेशं करोति किम् अहंकार, द्वेष लोभ सर्वान् दुर्गुणान् त्यजनं भवेत् इति सः त्यक्तं करणीयम् इति अग्रिमे तस्य उपदेश बहवः श्रद्धान् बहवः लोकः श्रद्धा पूर्वक श्रुतवन्तः एक एक श्रोता अपृच्छत् महोदय अहं प्रतिदिनं श्रद्धायाः शृणोमि तस्य प्रवचनं किन्तु किमपि परिवर्तनं न आसीत् प्रगतिः न आसीत् किमर्थं तस्य इति अत्र तत्र उपसर्प्य अपृच्छत् उप यदा कदा तत्र उपशब्दः आगच्छति भगिनी तद् उप इत्युक्ते गोयिङ्ग् क्लोज् गो गो समीपं गत्वा तत् उपविशत् उपवेशनम् इति अस्ति अनन्तरम् उपवेशति समीपं गच्छति उप सर्प्य इत्युक्ते तत्र स्तर इति स्तृ इति धातु सर्प्य गत्वा उपसर्पे लबंतर समीपम गृया श्रध्धया, श्रद्धया अहम शुणोमी श्रद्धया हाँ भक्तिनया तृती हाँ श्रद्धया अम शृणी परि का प्रगति न मयि कायि अयि सप्तमी आग्छति मयि मयि प्रगतिन नृश्यते तत्र परिवर्तनं न दृश्यते किमर्थम् एवम् अतः तस्य चिन्तनमस्ति मयि परिवर्तनं भवेत् अहं प्रवचनं तु शृणोमि <laughs> भक्तिभावनया शृणोमि परन्तु परिवर्तनमेव न भवति कथम् एतत् इति प्रश्नः <laughs> हा अस्तु धन्यवादः भगिनी <laughs> भारतमहोदयः भवान् अग्रिमे पठति वा तदा महात्मा अथ कदाचित् कश्चन श्रोता आ, बबद, तदा महात्मा आ, तदा तम् अपृच्छत् भवान् कुतः आगच्छति इति इतः दुरे अनतिदूरे दुरे स्थितात् ग्रामात आगच्छामि श्रीमन् तेन श्रोत्रा उक्तम् साधु भवतः ग्रामः कथं प्राप् प्राप्तुं शक्यः महात्मना पृष्टम् इतः गमनाय कश्चन मार्गः अस्ति तम अनु तम् अनुशुत्य पादाभ्याम् अश्वकटेन अश्वस्यटेन वृषभशकटेन वा गमनेन मम ग्रामः प्राप्तुं शक्यः किम् अभवत् तत्र महात्मा अपृच्छत् भवान् कुतः आगच्छति सो कुतः इत्युक्ते फ्रोम् वेर् इति भवान् अद्यदिने एव वयं पठितवन्तः भवान् भवन्तो भवन्तः भवान् कुतः आगच्छति इति प्रश्ने सति किमुक्तवती सः श्रोता इतः अनतिदूरे दुरे, स्थितात् ग्रामात् आगच्छामि दूरे ग्रामात् आगच्छामि इत्युक्ते uh. okay, uh? mm, yeah. uh, कमिङ्ग् फ्रोम् द फार् अवे प्लेस् इति स्थितात् ग्रामात् सर्वेषु स्थलेषु तत्र पञ्चमी दृश्यते स्थितात् uh? ग्रामात् आगच्छामि महात्मा किं पृच्छति साधु भवतः ग्रामः कथं प्राप्तुं शक्यः साधु भवतः ग्रामः कथं प्राप्तुं शक्यः इत्युक्ते तत्र भवतः ग्रामः कथं प्राप्तुं शक्यः कथं प्राप्स्यते इति इत्युक्ते तत्र भवान् कथं तत्र गन्तुम् शक्नोति इति पृश् पृच्छति ह अत्र प्रवचनकार्यम् यत्र प्रचलति तत् सः श्रोता दूरात् एव आगच्छति यत्र प्रवचनकार्यम् प्रचलत् आसीत् तत्र श्रोता दूरात् ग्रामात् आगच्छति कथम् आगच्छति इति महात्मा पृच्छति तदा सः किं वदति मार्गः अस्ति गमनाय कश्चन मार्गः अस्ति गमनाय कश्चन मार्ग इत्युक्ते मोड्स् आफ् ट्रान्स्पोर्ट् खलु तम् अनुसृत्य पादाभ्याम् अश्वशकटेन वृषभशकटेन शकट इत्युक्ते तत्र बुलक्काड् भवेत् वा अश्व इत्युक्ते हार्स् मम ग्रामः प्राप्तुं शक्यः आर् द डिफ़्रेण्ट् मोड्स् आफ़् ट्रान्स्फोर् विच् ऐम् ऐ एम् कमिङ्ग् मोबैयर् इति सः वदति एवं खलु स्पष्टमस्ति भारतमहोदय धन्यवादः अतिदूरे दूरे दूरे इस् फार् अवे अनतिदूरे अनतिदूरे not far away no? an aditure na anana tatra um, katambhavati tat uttra um, uh, yada svarah asti cet han hey, sure. mm -hmm. aditu anati dure ati an dure hum it is opposite to dure hai an -atitore. ati dure अतिदूरे अनतिदूरे स्वर तत्र स्वरः अस्ति स्वरः अस्ति चेत् अन आगच्छति नो चेत् व्यञ्जनम् अस्ति तत् सत्य असत्य सत्यं असत्यम् तत्र इष्टम् अनिष्टम् अनिष्टम् अतिदूरे अनतिदूरे हा तत्र अनतिदूरे इत्युक्ते नाट् सो फार् अवे इति सत्यं सत्यं सत्यं कम्पेरिटिव्लि क्लोन् नियर् बै इति चिता ग्रामात् सत्यं सत्यम् धन्यवादः okay, भवानेव पठति वा अग्रिमम् अत्रैव उपविश्य ततः कुत्र अस्ति अत्र प्राप्तुं शक्यः तत्तु अभवत् अत्रैव उपविश्य उपविश्य भवतः ग्रामः प्राप्तुं शक्यः किम् हा अत्रैव उपदिश्य भवतः ग्रामः hmm. प्राप्तुं शक्यः किम् hmm. तत् कथं शक्यं ग्रामं hmm. प्राप्तुं यानादिकम् hmm. आश्रयणीयम् hmm. आश्रयणीयं hmm. hmm. hmm. पादाभ्यां वा गन्तव्यम् कथं प्राप्तुं शक्यः इति वरणस्य श्रवणं श्रवणात् किं भवद्ग्रामः भवद्ग्रामः प्राप् प्राप्येत तत् श्रुत्वा सः श्रो श्रोता हसन् अवदत् यत् संभवेत, ग्रामः प्राप् प्राप्तव्य चेत् तत् सम्बन्धः एव मार्गस्य अनुसरणात् श्रुते ग्रामः कथमपि न प्राप् प्राप्येत प्राप्येत तत्र ऋते इत्युक्ते मार्गस्य अनुसरणात् ऋते तत्र पञ्चमी दृश्यते ऋते योगे पञ्चमी मार्गस्य अनुसरणात् ऋते ग्रामः कथमपि न प्राप्येत् विहाय विधौट् डेट् ऋते हा अधुना वदतु किम् अभवत् hmm. महात्मा किं पृष्टवान् अत्रैव उपविश्य भवतः ग्रामः प्राप्तुं शक्यः किम् तत्र श्रोता कथमागच्छति तस्मिन् विषये उक्तवान् आसीत् पादाभ्याम् आगच्छामि वा शटकेन शकटेन आगच्छामि इति तदा महात्मा पृष्टवान् अत्रैव उपविश्य अत्रैव उपविश्य इत्युक्ते उप तत्र समीपे अत्र एव उपविश्य यप्रत्यय भवतः ग्रामः प्राप्तुं शक्यः किम् इत्युक्ते कत्र साधनानि मा योजयतु अत्र उपविश्य अत्र तिष्ठतु ग्रामं ग्रामस्य प्राप्ति ग्रामं प्रति गन्तुं शक्नोति इति सः पृच्छति तदा श्रोता किम् उक्तवान् महोदय तत् तत् कथं शक्यं hmm. ग्रामं प्राप्तुं यानदिकम् आश्रयणीयम् वा यानं, यानं भ्यां वा गन्तव्यम् इत्युक्ते यानं यानम् अवश्यं यानम् आवश्यकम् नो चेत् तत्र पादाभ्यां गमनीयं भवेत् तत्र शकटेन गमनीयं भवेत् तत्र ग्रामस्य प्राप्ति भवेत् अतः केचन साधनाः तत्र साधनान् उपयुज्य एव अहं गन्तुं शक्नोमि अत्र उपविश्य कथं गन्तुं शक्नोमि अग्रिमे महात्मा किं पृच्छति ग्रामः कथं प्राप्तुं शक्यः इति विवरणस्य श्रमणात् किं भवद् ग्रामः प्राप्येत् यदा केवल तत्र विवरणं ददामि कथं ग्रामं प्राप्येत् ग्रामः कथं गन्तव्यं कथं प्राप्तव्यः इति विवरणं केवलं प्रवचनं केवलं शृणोतु okay. केवलं तत्र श्रवणं भवेत् श्रवणात् किं भवद्ग्रामः प्राप्येत् लभ्येत् भवद तदा श्रोता किम् उक्तवान् तत् कथं सम्भवेत् किम् उक्तवान् अम्बिकापतिमहोदय ग्रामः प्राप्तव्यः चेत् प्राप्तुं शक्यः इति श्रवणात् किं भव इत्युक्ते यदा ग्रामः प्राप्तव्यः तदा तत्सम्बन्धः तद मार्गः क्रमणीयः एव मार्गक्रमणीयः एव मार्गक्रमणात् एव ग्रामं प्रति गच्छामः मार्गस्य अनुसरणात् ऋते विना मार्गस्य अनुसरणं कृत्वा ग्रामः कथमपि न प्राप्येत् केवलं चिन्तनेन वा श्रवणेन वा विचारान् अधि विचारान् विचारान स्वीकृत्य एव केवलं चिन्तयतु कथं प्राप्ये तेन ग्रामस्य प्राप्ति कदापि न भवति इति श्रोता एव उक्तवान् अधुना उत्तरः किमस्ति यत् उत्तरं तत् पश्यामः जयन्तीभगिनी पठति वा अन्तिमम् एवमेव आं बेनि एवमेव भवती जीवने प्रगतिप्राप्तिः प्राप्तिः प्राप्ति अपि एवम् एवमेव अस्माकं जीवने अपि प्रगतिः प्राप्तिः अपि भवति मार्गं स्वीकृत्य एव ग्रामं ग प्राप्तुं शक्यते खलु तावदेव अस्माकं mm. जीवने प्रति प्रगतिप्राप्तिः तावदेव भवति यदा mm. भवत् बग भवद् ग्रामं प्राप्तुं विभ विभन्नः मार्गः मार्गाः तदा mm -hmm. प्रगतिं प्राप्तुम् अपि केचन मार्गाः भवितुम् अर्हन्ति mm. यदा ग्रामं प्राप्तुं बहवः मार्गाः सन्ति तावदेव अस्माकं जीवने प्रगतिं प्राप्तुमपि बहवः मार्गाः अपि सन्ति अर्हन्ति भवितुमर्हन्ति इति तेषु कोऽपि मार्गाः अनु अनुश्रु चेत् एव प्रगतिः प्राप्येत यदा ग्रामं गन्तुं ग्रामं प्राप्तुम् एकमार्गः स्वीकरणं स्वीकरणीयं खलु Hmm. कटने शकटेन वा पादाभ्यां वा एकं hmm. मार्गं स्वीकरणीयं तावदेव अस्माकं hmm. hmm. जीवने अपि एकमार्गः स्वीकरणम् hmm. आवश्यकं भवति प्रकृतिं प्राप्तुं hmm. केवलेन उपदेशश्रवणेन न किमपि प्रयोजनं केवलम् hmm. उपदेशं श्रवणात् एव किमपि परिवर्तनम् अस्माकं जीवने न भवति कश्चन मार्गः अनुश्रूयताम् एक एकमार्गः वयं स्वीकृत्य तत् अनुसृत्य जीवनं करणीयं तस् तस्मात् एव प्रगतिः प्राप्तुं शक्यते मार्गानु मार् मार्गानुगुणं फलं प्राप्येत तस्य तस्य मार्गे गमनेन एव अस्माकं प्रगतिं प्राप्येत् प्राप्येत मार्गम् एव अननुसृत्य प्रगति प्राप्ति प्राप्ति च प्राप्तिछाकरणं च प्राप्तिछाकरणं न अचितम् सारि उचितम् इति बोधित बोधितवान् सः महात्मार्गं मार्गम् एव अननुसृत्य प्रगतिप्राप्ति प्राप् प्राप्तिचा चाकरणं न उचितं केवलं मार्गम् अपि अस्माकं लक्ष्यं प्राप्तुं न शक्यते उपदेशेन सहितं मार्गमपि आवश्यकम् इति महात्मा उक्तवान् खलु सत्यं वा मा। मार्गम् अनुसृत्य एव प्रगतिप्राप्तेः इच्छाकरणं भवेत् इति किमपि न करणीयं केवलं श्रवणं करणीयं चिन्तनं करणीयं कार्यमेव न करणीयं तस्मात् सम्यक् Hmm. यथा अत्र भवत भवत ग्रामं प्राप्त विभिन्ना मगा स्यु तथा hmm. प्रगतिमेन मगा इदानमक hmm. अस्कम वर्ग अस्थ गीता हाँ भक् विषय अभी बहवे मंत्री कहचन जना जब परे जना म लोकसेवा क न... जनाती न... न... केचन जना शास्त्रोपठन कुरस्त्री तगति बहव मंती पर मगस विनाग से असगति बहवः मार्गाः सन्ति परन्तु मार्ग अनुसरणीयम् इति तत्र मार्गस्य अनुसरणं करणीयमेव इति अस्ति अस्तु वीणा भगिनी अस्ति वा अत्र विलम्बेन आगतवती वा कथा कथायाः श्रवणं कृतवती वा हा वदतु वदतु किञ्चित् धन्यवादजयन्ति भगिनी विना भगिनी वदति वदति वा किञ्चित् स्वशब्दायां विषये अस्माकं जीवने न तु प्रवचनां श्रोतुं न तु न तु श्रोतु परन्तु हव् टु डु संथिङ्ग् प्रयत्नेन निरन्तरप्रयत्नेन निरंतर निरंतर साधनयाव प्रगति शक्य नोचे कवल तित कूव त्रवण कून मार्ग से आचरणी अस् इदानस्कय वर्गस्य उद्देशः कः अस्माकं वर्गस्य उद्देशः कः वदति वा कोऽपि सम्भाषणं करणीयम् इति उद्देशः तस्य कृते गीताश्लोकान् आधारीकृत्य वा अस्माकं पुस्तकस्य आधारेण वयं सर्वे पठनं कुर्मः तत् अस्माकं मार्ग परन्तु मार्गे समस्या सन्ति अनन्तरं कदा कदा मनसि तत् अन्यानि कार्याणि अपि सन्ति वयं सर्वे व्यक्ताः परन्तु तदा एव मार्गस्य आचरणं भवेदेव इति विचारः त्यजनं मास्तु तत्र काठिन्यमस्ति कदा कदा काठिन्यं भवति परन्तु मार्गं अनुसृत्य एव प्रगति भवेत् इति अस्तु मार्ग अनुगुणम् अर्थं सम्यक् किम् मार्गम् अनुगुणम् अनुगुणम् इत्युक्ते अनुसृत्य तावदेव अनुगुणम् अनुसृत्य अनुगुणम् अनु पश्यन्तु अनुकरणम् इति शब्द अनुकरणम् अनुकरणम् इत्युक्ते फालोयिङ्ग् उपसर्गस्य कृते यथा मुक्तवती उप इत्युक्ते नियर् बै इति क्लोज़् तथैव अनु इत्युक्ते फोलो अनु अनुसरणम् अनुगुणम् स्वागतम् अस्तु किमपि वक्तव्यमस्ति वा अन्य कोऽपि वक्तुम् इच्छति वा राधा भगिनी भारतमहोदय अम्बिकापतिमहोदय वक्तुमिच्छति वा भवत्सु कोऽपि जीवने क्वचित् गमनं करोति चेत् मार्ग भिन्नमार्गेषु सन्ति अतः भिन्नाः मार्गाः सन्ति भिन्नाः मार्गाः सन्ति अतः अस्माकं सम्यक् मार्गं सम्यक् मार्गस्य चयनं कृत्वा चित्वा गमनं शक्यते नित्यप्रयत्नेन तत्र गमनं शक्य शक्यते सम्यक् अस्तु विना भगिनी शान्तिमन्त्रेण समापयामः वा अस्तु भगिनी वदतु ॐ पूर्णमादः पूर्णमिदम् पूर्णात् पूर्णमुदक्ष्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते शान्तिशान्तिः हरिः ओम् श्रीकृष्णाय नमः धन्यवादः